मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टि त्री देवमुनिकृतस्तुतिवर्णनं श्रीगणेशाय नमः मुद्गल उवाच शान्तिरूपधरं लोभं दृष्ट्वा देवर्षयो देवर्षयोमलाः गजाननं निजं नादं हर्षिदा नेमुरादराद गजाननं पूजयित्वा विधानेन सुरर्षयः पुनः प्रणम्य तं सर्वे तुष्टुभुः करसम्पुडैः विदेहरूपं भवबन्धहारं सदा स्वनिष्टं स्वमुखप्रदन्तम् अमेयसाङ्ख्येन च लभ्यमीशं गजाननं भक्वियुधा भजामः मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तं विकालहीनं सकलान्धं वै गजाननं भक्ति युदा अमेयरूपं कृति तं ब्रह्माहमेकं भ्रमनाशकारम् अनादिमध्यान्तमपाररूपं गजाननं भक््रि युदा जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् अनात्मनं मोहप्रदं पुराणं गजाननं भक्रियुदा भजामः नभूर्नरूपं भूर्णरूपं न जलं प्रकाशं न तेजसिस्थं न समीरणस्थं गजाननं भक्रियुदा भजामः न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्तमनन्दगं न गुणायुर्विहीनं परमार्थभूतं गजाननं भक्रि युदा भजामः गुणेशगं नैव जिन्दुसंस्तं न देहिनं बोधमयं न डुण्ढिम् संयोगहीनाः प्रवदन्ति तस्थं गजाननं भक्रीयुदा भजामः अनागतं नैव गदं गणेशं कथं तदाकारमयं वदामः तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्रियुदा भजामः यदि त्वया नाथकृतं न कथं सर्वमिदं विभादि तदो महात्मानमचिन्त्यमेव गजाननं भक्रियुधा भजामः यदि तदा कथं सर्वमिदं विभादि अदो महात्मानमचिन्त्यमेव गजाननं भक्रियुदा भजामः सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिहसौख्यदं तम् अकामिकानां भवबन्धहारं गजाननं भक्रियुधा भजामः सुरेन्द्रसेव्यं ह्यसुरयसुसेव्यं समानभावेन विराजयन्तम् अनन्दवाहं मूषकध्वजं तं गजाननं भक्रियुदा भजामः सदा सुखानन्दमये जले च समुद्रजे चेक्षुरसे निवासं द्वन्द्वस्य पानेन च नाशरूपे गजाननं भक्रियुधा भजामः सदुःपदार्था विविधप्रकाशास्त एव हस्तास्स चतुर्भुजन्तम् अनादनादं च महोदरं वै गजाननं भक्तियुधा भजामः महाकुमारूढमकालकालं महा विदेहयोगेन च लभ्यमानम् अमायिनं मायिकमोहदं तं गजाननं भक्ति युदा भजामः रविस्वरूपं रविभासहीनम् हरिस्वरूपं हरिबोधहीनं शिवस्वरूपं शिवभासनाशम् गजाननम् भक्तियुधा भजामः महेश्वरीस्थं च सुचक्रिहीनं प्रभुं परेशं परवन्द्यमेवम् अचालकं चालकबीजभूदं गजाननं भक्तियुधा भजामः शिवादिदेवैश्च कगैः सुवन्द्यं नरैर्लतवृक्षपशुप्रभूभिः चराचरैर्लोकविहीनमेवं गजाननं भक्रियुधा भजामः मनोवजो हीनतया सुसंस्तं निवृत्तिमात्रं ह्यजमव्ययन्तम् तथापि देवं पुरा अस्ति दं तं गजाननं भक्तियुधा भजामः सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तं तथापि देवं पुरा अस्ति दं तं गजाननं भक्तियुधा भजामः वयं सुधन्यागणपस्तवेन तव गणेशता गजाननम भक्तियुद्यबीज प्रवदंधि वेदास्तव चिन्हिन स्व गति तेन गजाननस्व गजानन भक्ति भजराणदाशिव विष्णुकाशुकाद्याणपस्तव विकुंठिधा कि वैं स्तवाम गजानन भक्ति भज मु मुद्गल उवाच यं गणेशानं नेमु सर्वे पुनः तानुप्य वचो रम्य गजानन उवाच गजानन उवाच वरम बूद महाभागा देवा पर स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितं गजाननवचुत्वा हर्षयुक्ता सुरक्षयः जुगुस्तं भक्तिभावेन साश्रु नेत्राः प्रजापदे देवर्षय ऊजुः गजानन यदि स्वामिन् प्रसन्नो वरदो शि तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् लोभासुरस्य देवेशकृता शान्तिः सुखप्रदा तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया अधुना देवदेवेशकर्मयुक्ता द्विजादयः भविष्यन्ति धरायां वै वयं वै स्वस्थानगास्तधा स्वधर्मरता सर्वे गजाननकृता त्वया अतः व्याजामहे ढुण्डे कमप्यहो यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो तदा सङ्गणहीनान् वै कुरुत्वं नो गजानन यवमुक्त्वा प्रणेमुस्तं गजाननमनामयं सत्तानुवाच प्रीदात्मा भाक्तुर्यधीनस्वभावदः गजानन उवाच यद्यच्च प्रार्थितं देवामुनयः सर्वमञ्चस भविष्यति न सन्देहो मस्मृत्या सर्वदा शिवः भवत्कृतमदीयं वैस्तोत्रं सर्वत्र सिद्धितं भविष्यति विशेषेण मम भक्तिप्रदायकं पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् सर्वसम्वत्करम् देवाः पठनाश्रवणानृणाम् मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः परकृतम् च विप्रेन्द्रा अशुभम् नैव बाधते सङ्ग्रामे जयदम् चैव यात्राकाले फलप्रदम् शत्रूच्चाटनकाद्येषु प्रशस्तम् तद्भविष्यति कारागृहगतस्यैव बन्धनाशकरं भवेद् असाध्यं साधयेत् सर्वमनो नैव सुरर्षयः एकविंशतिवारं चैकविंशतिदिनावधिं प्रयोगं ह्यः करोत्येव स भवेत् सर्वसिद्धिभाक् धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकं भविष्यदि न सन्देहस्तोत्रं मद्भक्तिवर्धनम् गणाधीशस्तत्र इवान्दरधीयन देवा सर्षिगणः सर्वे भवन् किन्ना इव प्रभो गजाननस्य मूर्तिस्थायि स्थापिता सिद्धिदादः नैहृदे कोणभागे दर्शनेन सुखप्रदा तत्रैव संस्थिता देव मुनयो भक्तिसंयुताः अंशेन स्वाधिकारेषु स्वाश्रमेषु गदा बभूः तदा स्वधर्मसंयुक्ता भुवि यथा योग्यं जगत्सर्वं बभूवे विदे। विधे एतद्गजाननस्यैव चरितं भुक्तिमुक्तिप्रदं दक्षकथितं ब्रह्मदं परं यः पठेत् पाठयेद्वापि शृणुदे श्रद्धयान्वितः स ईप्सिदफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम चत्वारिंश्योऽध्यायः ओम्